श्रीगुरुभ्यौरवः हरि ॐ मो देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां भूष्णोहस्ताभ्यां मो आददे युञ्जते मन उत युञ्जते धियोऽभिप्राप्स्य विहोत्रादधिना विदेक इन्मही देवस्य धवितुः परुस्तुतिः देवी द्यावापृथिवी मघस्य वामजशिरोराध्यादन्दे वयजने पृथिव्याः मघायत्वा मघस्य त्वाशीर्ष्णे देव्यो ब्रं यो भूदजप्रदमजामघस्य वोध्यशिरोराध्यादन्दे वयजने पृथिव्याः मघाय त्वामघश्चत्वाशीर्षणे यत्तसीन्मघज देद्य शिरोराध्यासन्दे वजने पृथिव्याः मघाय त्वामघस्यत्वाशीर्षणे इन्द्रस्य उरतमघोध्यशिरोराध्यासन्दे वजने पृथिव्याः मघाय त्वामघस्यत्वाशीर्षणे मघाय त्वा मघस्य त्वाशीर्षें चयितु ब्रह्मणस्पदिः प्रदेव्येदुषु नृता अचाभ्रीरन्नजं पङ्क्तिरा दसंदेवादन्नयन्तु नः मघाय त्वा मघस्य त्वाशीर्षें मघाय त्वा मघस्य त्वाजीर्षे मघस्य शिरोषि मघस्य शिरोषि मघाय त्वामघस्य त्वाजीर्षे मघाय त्वा मघस्य त्वाजीर्षे मघाय देवयजने पृथिव्याः मघायत्वा मघस्य पाशीर्षे अश्वजत्वावृत्ताः सग्नाधूपयामि देवयजने वृद्धिव्याः मघायत्वा मघस्य शीर्षेम् अश्वजत्वावृत्ताः सग्नाधूपयामि देवयजने वृद्धियाः मघायत्वा मघस्य शीर्षें मघायता मघस्यत्ताशीर्षे मघायत्वा ऋजवित्वा सजवित्वा दुखिचयि त्वा मघाय त्वा मघस्य प्राशीर्षे मघाय त्वा मघस्य प्राशीर्षे मघाय त्वा मघस्य प्राशीर्षे जमाय त्वा अनार्ता पुरस्तादग्नेराधिपत्य आयुर्मेदाः सवति दक्षिण इन्द्रस्याधिपते प्रजां मेधाः सुहदावस्ताद्देवस्य दगितुराधिपते रक्षुर्मेदाश्रुचिरतो धातुराधिपतेरायपोखं मेधाः बीतिरुपरिष्टाद्बृहस्पदे राधिपत्य ओजो मेदाभ्यस्वाभ्यो मानाष्टाभ्यस्ताहि मनोरस्वासि स्वाहामरुभिः परिश्रीयस्व दिवाः सुकुसृहस्पाहि मधु मधु मधु गर्भो देवानां पितामतीनां पतिः प्रजानां सन्देवो देवेन सवित्रागतशुं सूर्येण रोचते समग्निरग्निनागत सन्दैवेन सवित्राधकुं सूर्येण रोदिस्तु स्वाहा सवमिस्तपसागत सन्दैव्येन सवित्राधकुं सूर्येण रोचतु धर्ता दिवो विभाजिरवसपृदिव्यान् धर्ता देवो देवानामर्तस्तपूजाः वाजमस्मि नियच्छ देवायुवम् अवश्यङ्गोपामनिपद्यमानमाच परा च पदि विश्ररन्तं सदृद्रीचिः सद्विभूजिर्वसान आवरीवति भुवने क्वन्तः विश्वासाम्भुवाम्बदि विश्वस्य मनसुपति विश्वस्य प्रज सुपति सर्वस्य वज सुपति देवश्रुत्वन्देवघर्म देवो देवान् पायशतप्रावीरनुवान् देववीतये मधुमाध्वीभ्यां मधुमाधुरिभ्यां हृदित्वामनजेत्वा दिवे त्वा सूर्यायत्वाध्वरन्दिवि देवे खुदेः हितानो दिपिता नो बोधि नमस्तेऽस्तु मामाहि पुंजीः त्वष्ट्रे मन्दसाधे मपुत्रान् पशून्मयुधेः प्रजावस्तादुरे झाः स वत्या भूयासम् अहः गेतुनाजुहदा गुहव्यो दुर्योजिहास्वाहात्रिः गेतूनाजुहदा गुहव्यो दुर्योजिः स्वाहा इति सप्तत्रिंशः